हरि ओं श्रीजगदम्बिकायै नमः अथ श्रीमद्देवी भागवतमहापुराणे तृतीयस्कन्धे एकादशोऽध्याय लोमशोवाच न वेदाध्ययनं किञ्चिज्जानाति न जपं तथा ध्यानं न देवताना च न चैवधनं तथा नासनं वेदविप्रोसो प्राणायामं तथा पुनः प्रत्याहारं च नो वेद भूतशुद्धिं च कारणं न मन्त्रकीलकं जाप्यं गायत्रीञ्च न वेद सह शौचं स्नानविधिकं पुनः प्राणाग्निहोत्रं नो वेद बलिदानं न चातिथिं न सन्ध्यां संविधो होमं विवेद च तथा मुनि स्वकरोत् प्रातरुत्थाय यत्किञ्चिदन्तधावनं स्नानं च शूद्रवत्तत्र गङ्गाया मन्त्रवर्जितम् फलान्यादाय वन्याने मध्याह्ने यदृच्छया भक्ष्या भक्ष्य परिज्ञानं न जानाति षडस्तदा सत्यं ब्रूते स्थितस्तत्र नानृतं वदते पुनः जनै सत्यतपा नाम कुतमस्य द्विसवै नाहितं कस्यचित् कुर्यान् न तथा विहितं क्वचित् सुखं स्वपीति तत्रैव निर्भय चिन्तयन्निति कदा मे मरणं भावी दुःखं जीवामि कान्मे जीवितं धिक् मूर्खश्च तर्ता मरणं ध्रुवं दैवेहं कृतो मूर्खो नान्यत्र कारणं मम प्राप्य जन्म वृथा जातं ममाधुना यथा वन्ध्या स्वरूपा च यथा वा निष्फलो द्रुम अदुग्ध दोहाधेनुश्च तथाहं निष्फलकृतः किं नो निन्दाभ्यं दैवं नूनं कर्म ममे दृशम् न दत्तं पुस्तकं कृत्वा ब्राह्मणाय मात्मने नवै वैविद्यां या दत्ता पूर्वजन्मनिर्मला तेनाहं कर्मयोगेन शठोद्भि च द्विधाधम न च तीर्थे तपसप्तम् सेविता च साधव न पूजिता द्रव्यै तेन धातोऽस्मि दृष्टधि वर्तन्ते मुनिपुत्रा च वेदशास्त्रार्थपारगः अहं स्मूढः सञ्जातोदैव योगेन केनचित् न जानामि तपःसप्तम् किं करोमि सुसाधनम् मिथ्यायम् एत्रसङ्कल्पो न भाग्यं शुभं किल दैव मिक्शम वृथाश्रम कृतम कार्य ब्रह्मा विष्णु रुद्र शक्राध्याखिदेव काल्यवशा सर्व कालो दुति क्रम एवं विधानकाश्रम तीरे जाह पावे स्थले विरक्तः सुत सञ्जात स्थितस्तत्राश्रमे द्विज कालातिवाहनं चान्ते चकाथे विजने वने एवं स्थितश्चितु वने विमलोदके वै वर्षाणि तत्र नव पञ्चगतानि कामम् नाराधनं न च जपं वने वै जानाति तस्य वित तम् व्रतमेव लोक सत्यं वदत्यपि मुनि किल नाम दातम् दातम् यशश्च शुक्लेषु जनेषु कामम् सत्यव्रतो यमुनिचं न मृषाभिभाषि तत्रैकदात् मुगुल्याम् रममाण एव प्राप्तो क्रीडन् वनेति विपुलेयमतुल्यदेह क्रूराकृति धननकर्मणि तेनाति तेन चरेण विद्ध कोल किरातेन धनुर्धरेण पलायमानो मुने च मुने समीपं धृतो जगाम विकम्पमानोराद्रदेहो यदा जगामाश्रममण्डलम् वै कोलस्तदातीव दयार्द्रभावम् प्राप्तो मुनि तत्र समीक्ष दीनम् अग्रे व्रजन्तम् रुधिरार्द्रुदेहम् दृष्टा मुनिः तु कर्माचुविद्धम् दयाभिवेशादीकम्बमार सारस्वतम् बीजमथोचार अज्ञातपूर्वं च तथा श्रुतं नैवान्मुखे वहीतमपागतञ्चे न ज्ञानवान् बीजमसो विमूढ मम जोके सुमुनिर्महात्मा कोलप्रविश्याश्रममण्डलं तेत् गतो निकुञ्जे प्रविलीय गूढम् अप्राप्तमार्गो दृढनिविण्णचेता प्रवेपमानश्रपीडितत्वात् तत्क्षणाधारणान्तकृष्टम् चापं दयानोति करालदेहे प्राप्त सदन्ति स च मृग्यमाणो निषादराज किल कालैव रुनिं तत्र कुशासनिम् नाम्ना सुवृतं द्वितीयम् व्याधे प्रणम्य प्रमुखे सितोऽसौ पश्च कोल क्व जानामि तेऽहं प्रसिद्धं प्रसिद्धम् तेनाद्य पृच्छे मम बाणविद्धे क्षुधार्ति तं मे सकलम् कुटुम्बम् बिभर्तु काम किल गतोऽस्मि वृत्तिर्ममैषा विहिताभिधात्रा नान्यासि विप्रेन्द्रम् ब्रवीमि भर्तव्यमेवेह कुटुम्बमञ्जसा केनाप्युपायेन शुभाशुभेन सत्यं ब्रवीत्वद्यव सत्यव्रतोऽसि क्षुधासुरो वर्तते पोषवर्ग वा सुत सुकर्वाणवेध पृच्छाभ्यहम् बाडव ब्रूहि सूर्णम् तेनेति पुष्ट समुनिर्महात्मा वितर्कमग्न प्रबभूव कामम् सत्यव्रतम् भवेन्न भग्नं न दृष्ट इत्युच्चरितेन किं वै गतोऽत्र चरविद्ध देह कथम् ब्रवीम्यद्य मृषा मृषा वा क्युधातितोऽयम् परिपृच्छतीव दृष्ट्वा सत्यं न सत्यम् खलु यत्र हिंसा दयान्वितम् चामृतमेव सत्यम् हितम् नराणाम् भवति हयेण तथैव सत्यम् न तथान्यथैव हितम् कथं चाद्भूयोर्विरुद्धयो तदुत्तरम् किम् न यथा मृषा वच विचारयन् बाडवधर्म वा सङ्कटे न प्राप वक्तुम् वचनम् यथोचितम् बाणाहतम् वीक्षदयन् वितञ्च कोलम् तेन प्रसन्नान् य बीज तशिव विद्याम् दुरापाम्पदोच तस्मै बीजाच्चारणतो देव्या विद्या यहां तथा सब तमुवाच तिजो व्याधमस्थम धनोधरम सत्यम सुधर्मात्मा शोकमेक पश्य न सा न पश्य ओव्याध स कार्याथीन किम पृछति पुनः पुनः सुधरा तेन गतो स पशुः पुनः निराशे सुकरे तस्मिन् परावृतो निजालये ब्राह्मण तु कवेर्जाते प्राचेत स इवापरः प्रसिद्धः सर्वलोकेषु नाम्ना सत्यवर्तो द्विज सारस्वतम् ततो बीजम् जजप्रविधिपूर्वकम् पण्डितै चातिविख्यातो द्विज स्वधरणीतले पतिपर्वसु गायन्ति ब्राह्मणायक्ष आख्यानं चातिविस्तीर्णं त्वन्ति मुनय किल तच्छ्रुत्वा सदनं तस्य समागत्य तदाश्रमे येन त्यक्ते पुरा तेन गृहं नीति नीतोतः तस्माद् राजन् सदा देव्या पूजनीया च भक्तितः आदिशक्ति परा जगतां कारणं हिता तस्या यज्ञम् महाराज कुरु सर्वकाम सर्वकामपदम् नित्यम् निश्चयम् कथितम् पुरा स्मृता सम्पूजिता भक्त्या ध्याता चोच्चारिता स्तुता ददाति वाञ्छितानर्थान् कामदातेन कीर्तते अनुमानम् इदम् राजन् कर्तव्यम् सर्वथा बुधै दृष्टारोगुयुतान् दीनान् शुधितान् निर्धनान् शठान् जनानार्तान् तथा मूर्खान् पीडितान् वैरिभिः सदाय दासानाज्ञाकरान् क्षुद्रान् विकलान् विह्वला अतृप्तान् भोजने भोगे सुदार्तान् न जितेन्द्रियान् तृष्णाधिकान् अशक्तान् च सदाधि परिपीडितान् सदा विभव सम्पन्नान् पुत्रपौत्र पुष्टदेहान् च सम्भोगै संयुताजयुरा वजीकोत जनाथ स्वजनतायुक्तालक्षणलक्षिता व्यतिरेन्वयाभ्याज विचक्षण ये पूजिता देवी सर्वा फलदा शिवा साराधिता सुंबिका ये सुखी नर्वे संसारेऽस्मिन् संशय व्यास उवाच इति राजन् श्रुतं तत्र मया मुवने समागमे लोमशस्य मुखात् देवी माहात्म्योत्तमम् इति कर्तव्यं च सदा जनम् भक्त्या परमया देव्या प्रीत्या च पुरुष च इति श्रीमद्देवी भागवते महापुराणे टादशतादृश्यां सहितायाम् तृतीयस्कन्धे सत्यवताख्यानवर्णनम् नाम एकादशोऽध्याय श्रीजगदम्बिकायार्पणमस्तु